द्रोणौ वाच प्रयतिष्ये तथा कर्तुम् यथा नान्यो धनुर्धरः त्वत्समो भविता लोके सत्यमेतद्ब्रवीमिते वैशम्पायनौ वाच ततो अर्जुनं भूयो हयेषु च गजेषु च रथेषु भूमावपि चरणशिक्षामशिक्षयत् गदायुद्धेऽसि चर्यायाम् तोमरप्रासशक्तिषु द्रोणः सङ्कीर्णयुद्धे च शिक्षयामास कौरवान् तस्य श्रुत्वा धनुर्वेदजिघृक्षवः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 इश्वस्त्रे योगमातस्थे परम् नियममास्थितः परया श्रद्धयोपेतो योगेन परमेण च विमोक्षादानसन्धाने लघुत्वम् परमापसः अथ द्रोणाभ्यनुज्ञाताः कदाचित् कुरु पाण्डवाः रथैर्विनिर्ययुः सर्वे मृगया तत्रोपकरणं तत्रोपकरणम् गृह्य नरः कश्चिद् यदृच्छया राजन्ननुजगामैकश्वानमादाय पाण्डवान् तेषाम् विचरताम् तत्र स्वाचरम् सवने मूढो नैशादिम् प्रति जग्मिवान् सकृष्णम् मलदिग्धाङ्गम् कृष्णाजिन जटाधरम् नैषादिम् श्वासमालक्ष्य भशंस्तथौ तदन्तिके तदा तस्याथ भषतः शुनः सप्त दर्शयन्नस्त्रे मुमोच युगपत्यथा स तु दृष्ट्वा पाण्डवा वीराः परम् विस्मयमागताः लाघवम् शब्दवेधि त्वम् दृष्ट्वा तत्परमम् तदा प्रेक्ष्यतम् व्रीडिताश्चासन् प्रशशंसश्च सर्वशः तम् ततोऽन्वेषमाणास्ते वने वननिवासिनम् ददृशः पाण्डवा राजन् नस्यन्तमनिशंशरान् न चैनमभ्यजानम्स्ते तदा द्रोणशिष्यम् च माम् वित्त धनुर्वेद कृतश्रमम् वैशम्पायनौ वाच पुनरागम्य पाण्डवाः यथा वने सर्वम् द्रोणायाचख्युरद्भुतम् कौन्ते यस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् रहो द्रोणम् समासाद्य प्रणयादिदमब्रवीत् अर्जुनौ उवाच तदाहम् परिरभ्यैकः प्रीतिपूर्वमिदम् वचः भवतो भविष्यति अथकस्मान कस्मान् मद्विशिष्टो लोकादपि च वीर्यवान् अन्योऽस्ति भवतः शिष्यो